देव्यापराधसमापनस्तोत्रं न मन्त्रं नो यन्त्रं तदपि च न जाने नुतिमहो न चापानं ध्यानम् तदपि च न स्तुतिकथा न जाने तदपि च न जाने परं जाले मात त्वदनुशरणं क्लेशहरणं विधेरज्ञानेन द्रविणविरहेणा लसतया विधेयाशक्यत्वां तव चरणयोर्याच्युतिरभून् तदत्तच्छन्तव्यम् जननि सकलो सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति पृथिभ्यां पुत्रास्ति जननि बहव सन्ति सरला परं तेषां मध्ये विरलतरलोऽहं मदीयोऽयं त्याग समुचितमिदं नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति जगन्नातर्माता तव चरणसेवा न रचितां नवादत्तं देवी द्रविणमपि भूयस्तव मया तथापि त्वं सेहं मयि निरुपमं यत्प्रकुरुषे पुत्रो जायेत क्वचिदपि कुमाता न भवति परे देवा विविधविधिसेवा मया पञ्चाशीते अधिकमपनीते तु वयसि इदानीं मे मात तव यद् कृपानापि भवितां निरालम्बोलम्बोदरजननिकं यामि शरणम् सपाको जल्पाको भवति मधुपाकोपमगिरां निरातङ्कोरङ्को विहरति चिरं कोटि कनकै तवार्पणी कर्णे विशति मनुवर्णीफलमिदं जनको जानिते जनन जपलीयं जपविधौ चिताभस्मालेपो गरलमशरं देक्पटधरो जलाधारी भुजगपति भुजगपतिहारी पशुपति। कपाली भूतेशो भजति जगदीशैकपदविम् भवानि त्वहणपरिपाटी फलमिदं न मोक्षस्याकाङ्क्षा न च विभववांशापि च न मे न विज्ञानापेक्षा शशिमुखीसुखे जननि जननं यातु मम वै मृगाली रुद्राणि शिव शिव भवादिति जपत नाराधितासिविधिना विविधोपचारै किं रुक्षचिन्तनपरैर्ण कृतं वचोभि चामे त्वमेव यदि किञ्चनमयि जनाति से कृपामुचितमं वपरं तवैव आपशु मग्नस्मरणं त्वदीयं करोमि दुर्गे करुणा नेसि नैथत्वं मम भावयेथा सुधाति साता जननिन् जगदम्बविचित्रमन्त्र किं परिपूर्णा करुणास्तु चेन्मयी अपराधपरं परावृतं न हि माता समुपेक्षते श्रुतं वस्समापातकी जात्वा महादेवी यथा योग्यं यथा योग्यं तथा कुरु